कठोपनिषत् प्रथमोऽध्यायः प्रथमावल्ली श्रीगिरुभ्यो नमः हरिः ॐ सहना भवतु सहनौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधितमस्तु माविर्द्विधावहैः ॐ शान्ते शांते शान्तिः हरिः ओ उषण्णः वै वाजश्रवसः सर्ववेदसमदौ तस्य नचिकेतानां पुत्र आस तगं कुमारगं सन्तं दक्षिणासु नियमानासु श्रद्धाविवेशसो मन्यत पितोदकादग्धतृणादुग्धदोहानिरिन्द्रियाः आनन्दानां मे लोकास्तां स गच्छति तादत् सहोवाच पितरं तत् कस्मै मां दास्यतीति द्वितीयं तृतीयं च गम्भोवाच ददामिति बहुनामेवि प्रथमो बहुनामे वि मध्यमः बहु कियस्विद्यमस्य कर्तव्यं जन्मया आद्य परिषति अनुपस्य यथा पर्वे प्रतिपस्य तथा परे सस्यमिव मर्त्य पच्यते सस्यमिव जायते पुनः वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् तस्यैतागं शान्तिं कुर्वन्ति हर्वैव स्वतोदकम् आशा प्रतीक्षै सङ्गतगं शृणितां चेष्टा पुरते पुत्रपशुवंश्य सर्वान् एतद्धृङ्क्ते पुरुषस्याल्पमेदशो वसति ब्राह्मणो गृहे तिस्रो रात्रि यदवासि गृहे मे अन्नस्नन्ब्रह्मन्नततिर्नमस्य नमस्ते सुब्रह्मन् स्वस्ति मे अस्तु तस्मात् प्रतितिन् गुणान्वणेष्व शान्तसङ्कल्पसुमना यथा स्याद्भीतमञ्जुर् गौतमो माभिमृत्यो तत्प्रसिष्ठं माभिवदे तत्प्रतीत एतत् त्रयाणां प्रथमं वरं वृणे यथा पुरस्ताद्भविता प्रतीत औद्दालकीरारुण्मत्प्रसिष्ठः सुखगं रात्रिस्वतावीतमन्युस्त्वाम् ददृशिवान् मृत्युमुखात् प्रमुक्तं स्वर्गे लोके न भयं किञ्च न तत्र त्वं जरया बिभेति उभेत् त्वा सनायापिपासे शोकातिगोमोदति स्वर्गलोके सतमग्निगं स्वर्गमध्येशि मृत्यो प्रब्रूहितकं श्रद्धा स्वर्गलोकामृतत्वं भजन्त एतद्वितीयेन गुणेवरेण प्रतेभ्यविभितदुमे निबोधस्वर्गमग्निर्नचिकेत प्रजानन् अनन्त लोकाप्तिमथो प्रतिष्ठां विद्धि तमेतं निहितं गुहायाम् लोकाजमग्निं तमुवाच तस्मै या इष्टकायावतिर्वायथा वा वां स चापि तत्प्रत्यवदत्यथोक्तमथास्य पुनरेवाहतुष्टः तमब्रवीत्प्रियमाणो महात्मा वरं तवेहाद्य ददामि भूयः तवैव नाम्ना भवितायमग्निशृङ्कां चेमामलेकरूपां गृहाण त्रिणालिकेतस्त्रिभिरेत्यसन्धिं त्रिकर्मकृतरतिजन्ममृत्यो ब्रह्मयज्ञं देवमिज्ञं विधित्वा नित्याये माघं शान्तिमत्यन्तमेति चिकेतश्रयमेतद्विधित्वाय एवं विद्वाङ्गिनुते नाचिकेतम् समृत्युपाशान् पुरत प्रणोद्य शोकातिगो मोदते स्वर्गलोके एष ते गृणचिकेतस्वर्गोऽयमग्णीता द्वितीयेन एतमग्निं तवैव प्रवक्षन्ति जनासस्तृतीयं वरं न चिकेतो गृणेष्व येयं प्रेतेऽपि चिकित्सा मनुष्ये स्थित्येके नायमत्स्तीति चैके एतद्विद्यामनुशिष्टास्त्वयाहं वराणामी देवैरत्रापि विचिकित्सितं पुराण हि सुविवे ज्ञेयमनुजेसधर्मः अन्नं वरं न चिकेतो गुणेश्व मामोपरोसीरतिमासि जैनम् देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्यसुविज्ञेयमाथ वक्तास्य त्वादिगण्डो न लभ्यो नान्यो वरस्तुल्य एतस्य कर्त्ये सतायुष पुत्रपौत्रान् वृणिष्व बहून् प्रसुहस्ति हिरण्यमस्वान् भूमेर्महदायतनं मृणीष्व स्वयं जीत्य जीव शरदो एतत्तुल्यं यदि मन्यसेवरंस्थवित्तं चिरजीविकां च महाभूमौ नचिकेतस्तमेधि कामानां त्वा कामभाजं करोमि ये ये कामादुल्लभामर्त्य लोके कामागं छन्दता पार्थयस्व इमा रामा शरथातुर्या लज्जिशा लम्भणीया मनुस्यै आभिर्मपरिचार्यस्व न चिकेतो मरणं मानुप्राप्तिः शोभावामर्तस्य यदन्तकैतस्सर्वेन्द्रियाणां जरयन्ति तेज अपि सर्वं जीवितमल्पमेव तवैव वाहास्तमण्डित्यगीते न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्वा दिविश्यामो या वधि शिष्यशिस्त्वं वरस्तु मे वरणीय स एव अजिर्यताममृतानामुपेत्यजिर्यन्मर्त्य कुलस्थ प्रजानन् अभिध्यायन् वर्णरतिप्रमोदान् अतिदीर्घे जीविते कोरमेत यस्मिन्निदम्बि चिकत्सन्ति मृत्यो यस्वां पराये महति ब्रूहिणस्ततो योऽयं वरोगूढमनुप्रवेष्टो नान्यं तस्मान्न चिकीता वृणीते द्वितीयावल्ली अन्यत् श्रेयोऽन्यदुतैव प्रेस्ते प्रेयस्ते उभे नानार्थे पुरसगं सुनीतः तयोः श्रेय आददानस्य साधु भवति हीयतीर्थाद्यौ प्रेयो विनीते श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परित्य विनिवक् विनिनग् विविनप्तिधीरः प्रेयो हि धैरोऽब्धे धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमादृणीते सतं प्रियान् प्रियरूपागंश्च कामान् भिध्यायन्नचिकेतोद्यसाक्षी नैतागं शृङ्कां वित्तमयिमवाप्तो यस्यां मज्जन्ति बहवो मनुष्या दूरमेते विपरीते विसूचि अविद्याया च विद्येति ज्ञातां विद्याभिप्सिनं न चिकेतसम्मन्ये न क्त्वा कामा बहवो लोलपन्त अविद्यायामन्तरे वर्तमाना स्वयं धीरापण्डितमन्यमाना दम्यमाणा परियन्ति मूढा अन्धेनैव नियमाना यथान्धा न सां पराय प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् अयं लोको नास्ति पर इति मानी पुनः पुनर्वसम् मा आपद्यते मे श्रवणायापि बहुभिर्यो न लभ्य शृण्वन्तोऽपि बहवोऽयं न विद्युः आश्चर्यो वक्ता कुशलोऽस्य लब्धाश्चर्यो ज्ञाता कुशलानुशिष्ट न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमाना नन्न प्रोक्ते गतिरक्तनास्ति अणीजान्यतर्कम् अणुप्रमाणाद् नैषा तर्कणेण मतिरापणेया प्रोक्तान्येव सुज्ञानाय प्रेष्ठ यां तमापसत्यसिर्वतासी त्वाम्नो भूयान्नचिकेतपृष्टां जानाम्यहगं सेवधीरित्य नित्यं न श ध्रुवै प्राप्यते हि ध्रुवं ततो ततो मया जव्यै प्राप्तवानस्मि नित्यम् कामस्याप्तिं जगतः प्रतिष्ठां प्रचोरान्नत्यम् अपेयस्य पारं तोमं महद्दुर्गायं प्रतिष्ठां धृष्ट्वा धृत्या धीरो नचिकेतोद्यसाथी तं दुदर्शं गूढमनुप्रवेष्टं गुहाहितं गुह्वरेष्टं पुराणम् अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोको जहादि एतच्छ्रुत्वा सम्परिगृह्यमर्त्य प्रविश्य धर्म्यं मनुमेतमाप्य स मोदते मोदनीयुगं हि लब्धा विवृत्कं सद्य न चिकेतसं मन्ये अन्यत्र धर्मात् अन्यत्र धर्मान्यत्वस्मात् कृता कृतान् अन्यत्रभूताच्च भव्याच्च यत्तम् पश्यति तद्वद सर्वे वेदा यत्पदं मामनन्ति तापं ताप तपावंसि सर्वाणि च यद्वदन्ति यदिक्षन्तो ब्रह्मचर्यं चरन्ति तत्ते पदगं सङ्ग्रहेण ब्रवीम्योमित्येतत् एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् एतद्ध्येवाख्यं ज्ञात्मा यो यदीक्षति तस्य तत् एतदालम्बनं श्रेष्ठम् एतदालम्बनं परम् एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्नवभूवकश्चे अयो नित्यशाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे हन्ता चेन्मन्यते हन्तु गं हतश्चेन्मन्यते हतम् उभौ चौ न विजानीतो नायुगं हन्ति न हन्यते अणोरणीयान्महतो महीयान् आत्मस्य जन्तोर्निहितो गुहायां तमक्रतो पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः आसीनो दूरं व्रजति स यानो याति सर्वतः गस्तं मदा देवं मदन्यो ज्ञातुमर्हति अशरीरगं शरीरेष्वनवस्थे सुवस्थितं महान्तं विभुमात्मानं मत्वा धीरो नशोचति शोचति नायमात्मा प्रवचनेन लभ्योन्न मेधया न यमेवैष वृणुते तेन लभ्यस्तस्यै स आत्मा वृणुते तनुष्माम् नाविरतो दुश्चरितान्नशान्तो ना न ना समाहितः नाशान्तमानसो वापि प्रज्ञानेन्नैनमाप्नुयान् यस्य ब्रह्म च छत्रं च उभे भवत ओदनः मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सृतीवल्लीं ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्थे छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः यसेतुरीजानन्नामक्षरं ब्रह्म यत्परम् अभियं तां पारं नाचिकेतकं शकेमही मही। रचिनं विद्धि शरीरगं रथमेव तु वद्धिं तु सारथि विद्धि मनःप्रग्रहमेव च इन्द्रियालिहयानाहुर्विषया विषयागस्ते सुगोचरान् आत्मेन्द्रियमनो युक्तं भोक्तेत्याहुर्मनीषिणः यस्तु विज्ञान्वान् भवति अयुक्तेन मनसा सदां तस्येन्द्रियाण्यवश्यानि दुष्टा स्वा इव सारथे यस्तु विज्ञान्वान् भवति युक्तेन मनसा सदां तस्येन्द्रियाणि वस्यानि सदा इव सारथेः यस्तु भवति अमनस्क सदा न स तत्पदमवाप्नोति संसारं चाधिगच्छति यस्तु विज्ञान्वान् भवति स मनस्कः सदा सुतिः स तु तत्पदमवाप्नोति यस्याद्धूयो न जायते विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः सोऽध्वनः पारमाप्नोति तद्विष्णो ॐ परमं पदम् इन्द्रियेभ्यः पराशरथा अर्थेभ्यश्च परं मनः मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः महतः परमभव्यक्तं द्यक्त्वात् पुरुषपरः पुरुषान्न परं किञ्चित् स्वा काष्ठा सा परा एष सर्वेषु भूतेषु गूढोत्मा प्रकाशते दृश्यते त्वग्रया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः यच्छेद्वाङ्मनसि प्राज्ञस्तद्यच्छेज्ञान आत्मनि ज्ञानमात्मनि महति यच्छेत्तद्यच्छेच्छान्त आत्मनि उत्तिष्ठग्रत्प्राप्यवरान्निबोधत चिरस्य धारा निश्चितादि रत्ययात् ऋगं पधस्तत्कवयो वदन्ति अशब्दमस्पशमरूपम् अव्ययं तथा रसं नित्यम अनाद्यनन्तं महत परं ध्रुवं नित्याय मृत्यो तन्मृत्युमुखात्रमुच्यते नाचिकेतमुपाख्यानं मृत्योर्प्रोक्तकं सनातनम् उक्त्वा श्रुत्वा च मेदाविब्रह्मलोके महीयते य इमं परमं गुह्यं श्रावयेद्ब्रह्मशंसति प्रयतश्राद्धकाले वा तदानन्त्याय कल्पते तदानन्त्याय कल्पत इति द्वितीयोऽध्यायः चतुर्थीवल्ली पराञ्चिखाणि व्यतिर्णस्वयं भूत्यस्मात् परां पश्यति नान्तरात्मन् कश्चिद्धीरप्रत्यगात्मानमेक्षत् आवृत्य चक्षुरमृतत्वमेक्षन् परा च कामान्ननुयन्ति बाला ते मृत्योर्यन्ति वितस्य पाशम् अथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवे स्विहन प्रार्थयन्ति येन रूपं रसं गन्धं शब्दस्परसागश्च मेथुना एतेनैव विजानाति किमत्र परिशिष्यते एतद्वै स्वप्नानन्तं जागरितान्तं चोभौ येनानुपश्यति महान्तं विभुमात्मानं मत्वा धीरो न य इमम् अद्वदं वेद आत्मानं जीवमन्तिका ईशानं भूतमभ्यस्य न ततो विजुगुप्सते एतद्वैत य पूर्वं तपसो जातमभ्यपूर्वमजायत गुहां प्रविश्य तिष्ठन्तं यो भूतेर्भिर्यपश्यत् एतद्वैत या प्राणेन सम्यम्बत्यदीतिर्देवतामयी गुहां प्रविश्य तिष्ठन्तीं या भूतेर्भिर्युञ्जायत एतद्वैत अरण्ययोनिर्निहितो जातवेदा गर्भैव सभृतो गर्भिणीभिः दिवे दिव इड्यो जाग्रीवद्भिर्हभिस्माभिर्मनुष्येभिरग्निः एतद्वैत यतश्चोदेति सूर्योस्तं यत्र त गच्छति तं देवाः सर्वे अर्पितास्तद् नात्येति कश्चन एतद्वैत यदेवेह तद् मुत्रं मुत्र यदमुत्र मृत्योश्च मृत्युमाप्नोति य इह नानेव पश्यति मनसै भेदमाप्तव्यं देह नास्ति किञ्चन मृत्यो च मृत्युं गच्छति य इह नानेव पश्यति अङ्गुष्ठमात्रं आत्मनि तिष्ठति ईशानो भूतभव्यस्य न विजुगुप्सते एतद्वै तमुष्टमात्रपुरुषो ज्योतिरिवाधूमुकः ईशानो भूतभव्यस्य स एवाद्यसौ स्व एतद्वैत यथोदकं दुर्गे भ्रष्टं पर्वते सु विधावति एवं धर्वान् पृथक् पश्यन् ताले विधावति यथोदकं शुद्धे शुद्धमासक्तं तादिकेव भवति एवं मुनेर्विजानत आत्मा भवति गौतम पञ्चमी वल्ली पुरमेकादशद्वारमर्मजस्या वक्रचेतसः अनुष्ठाय न शोचते विमुक्तस्य विमुच्यते एतद्वै अवंसा सुचि सद्वसुरन्तरिक्षसद्धोतावेदि सदितिन्दुरोणसत् निषद्वरसदृतं सद्योमशब्दजागो जारितजा अदृजारितं रियत ऊर्ध्वं प्राणमुन्नयन्त्यपानं प्रत्यगस्यति मध्ये वामनमासीनं विश्वेदेवा उपासते मानस्य अस्याभिसंसमानस्य शरीरस्थस्य देहिन मानस्य दे किमत्र परिशिष्यते एतद्वै तत् न प्राणेन पाणेन मृत्योर्जीवति कश्चन इतरेण तु जीवन्ति यस्मिन्नेता उपाश्रितौ हन्तत इदं प्रवक्ष्यामि गुह्यं ब्रह्मसनातनं यथा च मरणं प्राप्य आत्मा भवति गौतम योनिर्योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ताडुमन्ये निसंयन्ति यथा कर्म यथा श्रुतं या एष सुप्तेषु सु जागरति कामं कामं पुरुषो निर्मिमाणः तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते तस्मिं लोकाश्रिता सर्वे तदून्नात्येति कश्चन एतद्वैत प्रविष्टो रूपं रूपं प्रतिरूपो बभूव एकस्तथा सर्वभूतान्तरात्मा रूपं रूप प्रतिरूपो बहिश्च वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च सूर्यो यथा सर्वलोकस्य चक्षुर्ना लिप्यते चाक्षुशैर्वाह्यदोषै एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः तमात्मस्थं ये नु पश्यन्ति धीरा तेषां सुखं शाश्वतं नेतरेताम् नित्यो नित्यानां चेतनश्चेतनानामेको बहुनां यो विदधाति कामान् मात्मस्थं ये नु पश्यन्ति धीरास्तेषां शान्ति शाश्वतीनेतरेषां तदेतदिति मन्यन्ते परमं सुखं कथं नो तद्विजानीयां किं भाति विभाति क्वां न तत्र सूर्यो भाति न चन्द्रतारकं देवा विद्युतो भान्ति कुतोऽयमग्निः तमेव भान्तम् अनुभाति सर्वं तस्य भासा सर्वमिदं विभाति षष्ठीवल्ली ऊर्ध्वमूलो वाक्शाख एषो स्वस्थसनातनः तदेव शुक्लं तद्ब्रह्म तदेवामृतमुच्यते तदेवा तस्मिन् लोकाश्रिता सर्वे तदुनात्येति कश्चन एतद्वै यदिदं प्यञ्चजुगः सर्वं प्राण एजति निसृतं महद्यं वज्रमुद्यतं य एतद्विदूरमितास्ते भवन्ति भयादस्याग्निस्तपति भयात्तपति सूर्यः भयादिन्द्रस्य वायुश्च मृत्युरधावति पञ्चमः इह चेदशगद्वोद्धुं प्राक् शरीरस्य विशस्रसा ततः सर्वेषु लोकेषु शरीरत्वाय कल्पते यथा दर्शो तथात्मनि यथा स्वप्ने तथा पितृलोके यथा सों परिवदृश्यसे परिददृशे तथा गन्धर्वलोकेच्छाया तपि योरिव ब्रह्मलोके इन्द्रियाणां पृथग्भाव ऋषुगुत्पद्यमानानां मृत्मत्वात् धीरो न शोचति इन्द्रियेभ्यः परं मनो मनस सत्त्वमुत्तमम् सत्त्वाद् दधिमहानात्मा महतोऽव्यक्तमुत्तमम् अव्यक्त्वात् परपुरुषोऽभ्यापकोलिङ्ग एव च यं ज्ञात्वामुच्यते यन्तुरमृतत्वं च न रूपमस्य न चक्षुषा पश्यति कश्चनैनं यदा मनीषा मनसाभिक्लिप्तो य एतद्विनिर्मितास्ते भवन्ति यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह बुद्धिश्च न गतिम् तां योगमिति मन्यन्ते श्रीराविन्द्रियधारणाम् अप्रमत्तस्तदा भवति योगो हि प्रभुवाप्यो नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषाम् अस्तीति ब्रूतोऽन्यत्र कथं तदुपं तदुपलभ्यते अस्तित्येवोपलब्धव्यस्तत्त्वभावेन चोभयो अस्तित्येवोपलब्धस्य तत्त्वभावः प्रसीदति यथा सर्वे प्रमुच्यन्ते कामायेष हृदिश्रुताः अथ मर्त्यो मृतो भवति अत्र ब्रह्म समस्तु यदा सर्वे प्रविद्यन्ते हृदि यस्येह ग्रन्थयः अथ मृतो भवति एतावध्यनुशासनम् सतं चैकातृदीयस्या नाड्यस्तासां मृधानभीर्णीश्रितैकां तयोर्वमायन्नमितत्वमेति विश्वं गन्या उत्क्रमणी भवन्ति अङ्गुष्ठमात्रपुरुषोन्तरात्मा तं स्वागच्छत्वाच्छरीरात् प्रवि प्रविहेन्मुञ्जादिवेषिकां धैर्येण तं विद्या शुक्रममृतं तं विद्या शुक्रममृतमिति मृत्युर्प्रोक्ता न चिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृष्णम् ब्रह्मप्राप्तो विरजो भूद्विमृत्योरन्योऽप्येवं यो विदुध्यात्ममेव ॐ सहनाभवतु सहनो भुनक्तु सहवीर्यं करवावहै येजस्विनावधितमस्तु माविद्विषावहैः ॐ शान्ति शान्ति शान्तिः हरिः ॐ तस्सत्य श्रीरामकृष्णार्पणमस्तु hey,